हरि ओं श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायण युद्धकाण्डे त्रि पञ्चाशत् सर्गः स्वसैन्यस्य वज्रदंशस्य युद्धाय प्रस्थानं वानराणां राक्षसे स युद्धम् वज्रदंशेन वाराणां मङ्गलेन रक्षसां च संहारः धूमराक्षं नेतं चुत्वा रावणो राक्षसेश्वर क्रोधेन महताविष्टो निश्वसन् उरगो यथा दीर्घम् भुजनं विनिश्वस्य क्रोधेन कलुषीकृतः अब्रवीत् राक्षसम् क्रूरम् वज्रधंष्टम् बहवम् गच्छ त्वम् वीरनिर्यायी राक्षसी परिवारितः जहिलाश्रुथिं रामम् सुग्रीवम् बानरै सह तथेत्युवा ध्रुततरम मीराक्षर निर्जगामा बल साधम बहु पारिवार नागै अश्वर संयुक्त सुसमिता पता ध्वज चिश् बहु समकुटे नीभूषि तनुत्रम् च समावृत्य स पताकालं कृतं दीप्तं तप्त काञ्चन भूषितम् कृत्वा समारोह चमूपतिः वृष्टिभिः स्तोमरैश्चित्वे चक्नैश्च मुसरैरपि बिन्दीपालैश्च चा चापै चा च खड्गै चक्रेगदाभिश्च निशीतैश्च परेश्वधै पदातय च निर्याति विविधा शस्त्रपाणय विचित्र वास सर्वे दीप्ताराक्षसपुङ्गवः गजामहोत्कटाचूर चलन्त इव पर्वतः ते युद्ध कुशलारूढाय तोमराङ्कुशपाणिभिः अन्ये लक्षणसंयुक्ता शूरारूढा महाबलः तद्राक्षसः बलम् सर्वं विप्रस्थितम् अशोभत् प्रावृट्काले यथा मेघा नर्दमाना स विद्युतः निसृता दक्षिणद्वारात् अङ्गदो यत्र यूथपः तेषाम् निष्क्रममाणानाम् अशुभं समजायते आकाशात् विघनात् तीव्र उल्काशाभ्यः पतन्तः पावकज्वाला शिवा घोरा भवाशिरे व्याहरन्त मृगा घोरा रक्षसाम् निधनं तदा समापतन्तो योधासु तात्कलन् तत्र दारुणम् एतानोत्पातिकान् धृष्ट्वा वज्रदंष्टु महाबलः धैर्यम् आलम्ब्य तेजस्वी निर्जगाम ऋणोत्सुकः स तु विद्रवतो दृष्ट्वा त्वा नराजित काशिनः प्रणेदू सुनादाम् दिशब्देन पूरयन् ततः प्रवृत्तम् तुमलम् हरीणाम् राक्षसे निपतन्तो महोत्साहा भिन्नदेह शिरोधरा हृदि रोक्षित सर्वाङ्गा न्यपतन् धरणीतले केचिदन्योन्यमासाध्य शूरापरिघाहवः शिक्षे पूर्वविधान् शस्त्रान् समरेश्वनिवर्तिनः द्रुवाणाम् च शिलानाञ्च श्रूयते सुमान् तत्र घोरो हृदयभेदनः रथनेमिः सनस्तत्र धनुषैश्चापि घोरवेत् शङ्खभि मृदङ्गानाम् बभूवयत् मुलस्वनः केचिदस्त्राणि सन्त्यज्य बाहुयुद्धम् अकुर्वत् तलैश्च चरणे चापि मुचिभिश्च द्रुमैरपि जानुभि च हता केचित् भग्नदेहाश्च राक्षसाः शिलाभिः चूर्णिता केचित् वानरे युद्ध वज्रदण्ष्टो भुजम् बाणै रणे वित्रासयन् हरिन् चचार लोक संहारे पाशहस्तः इवान्तकः बलवन्तोऽस्त्रविदुषो नाना प्रहरणे ना जघ्नो वा नरसैन्यानि राक्षसा क्रोधमूर्छितः जघ्ने तान् राक्षसान् सर्वान् धृष्टो वालिसुतोरणे क्रोधेन द्विगुणाविष्टय संवर्त कलह सान् राक्षस एन् सर्वान् चकार कदनम् घोरं शक्रतुल्य पराक्रमह अंगदाभी हता राक्षस राक्षसा भीम विक्रमः विभिन्न शिरस पेतु निकृत्ता इव पादपाः रथचित्रैर्दयश्वै शरीरैः हरि रक्षसान् पृथिरोघेण संचन्ना भूमि भय कलीतदा हारकेयूरवस्त्रे च शस्त्रै च समलङ्कृता गोम्बिर्भाति हिरणे शारदीव यथा निश अंगदस्य च वेगेन तद्राक्षस बलम्ब प्राकम्प तदा तत्र पवने यथा इत्याश्रे श्रीमद् रामायणे वाल्मीकी अधिकारी युद्धकाण्डे त्रिपञ्चाक्षर्गे श्रीसीतारामचन्द्रारणमास्तु